श्रीमन्महाभारतम् आदिपर्वणि सम्भवपर्वणि अंशावतरणसमाप्तौ सप्तषष्टितमो अध्यायः जनमे जय उवाच देवानां दानवानां च गन्धर्वोरग रक्षसां सिंहव्याघ्रमृगाणाञ्च पन्नगानां पतत्रीणां सर्वेषां चैव भूतानां सम्भवं भगवन्नहं श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनां जन्मकर्म च भूतानामेतेषामनुपूर्वशः वैशम्पायन उवाच मानुषेषु मनुष्येन्द्रसम्भूता ये दिवौकसः प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः विप्रचित्तिरिति षभः जरासन्ध इति दितेः पुत्रस्तु यो राजन्हिरण्यकशिपुस्मृतः स अनुह्लादस्त तेजस्वी योत्ख्या जज धृष्टेतुरी ख्याभूवन यस्तु राजजिना युमख्यास आसीद भुवी पार्थिव बाष्को नाम यस्तेसुरसम भगदत्त ख्यात स ज्ञे अयशंकुश्च वीर्यवान्न तथा गगनमूर्धवाश्चा पंचम पंचायत राजन्वीर्यवन्तो महासुराः केकयेषु महात्मानः पार्थिवर्षभसत्तमाः केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् अमितौ जाइति स्वर्भानुरिति विख्यातः श्रीमान् यस्तु महासुरः उग्रसेन इति ख्यात उग्रकर्मा नराधिपः महासुरः अशोको नाम राजा तस्मादवरजो यस्तु राजन्नश्वपति स्मृतः हार्दिक्यो मनुजर्षभः वृषपर्वेति विख्यातश्रीमान् महासुरः दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः अजकस्त्ववरो राजन्य आसीत् इति विख्यातः पृथिव्यामभवन्नृपः अश्वग्रीवैति ख्यातः सत्त्ववान् यो महासुरः रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः सूक्ष्मस्तु प्रकीर्तितः बृहद्रथ स पार्थिवः तु हुण्ड आसीदसुरोत्तमः सेनाबिन्दुरिति नराधिपः इशुपान्नाम बलाधिकः